हरि ओं गिरि जगदम्बिकायै नमः अथ श्रीमद्देवी भागवते मा पुराणे द्वितीयस्कन्धे अष्टमोऽध्यायः श्रुतवाच ततो दिने तृतीया च धृतरा च स भूपतिः दावाग्नि नावने दग्ध स्वभार्य कुन्तीसंयुत सञ्जय तीर्थयात्रायां गत श्रुत्वायुधिष्ठिरो राजा नारदा दुःखमाप्तवान् षट् निंशे ठगते वर्षे कौरवाणां क्षयात् पुनः प्रभासे यादवः सर्वे विप्रशापात् क्षयं गता ते पित्वा मृदिरामत्ता कृत्वा क्षयम् प्राप्ता महात्मान पश्यतो राम कृष्णयोः देहं तत्याज रामस्तु कृष्णकमलोचनः व्याधबाणः स शापम् पालयन् भगवान् हरिः वसुदेवस्तु तत् श्रुत्वा देहत्यागम् हरेरथ जहो प्राणाच्युचीम् कृत्वा चित्ते श्रीभुवनेश्वरीम् अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः संस्कारम् तव सर्वेषाम् यथा योग्यं चकार हे समीक्षार्थे हरे कृत्वा काष्ठस्य सञ्चयम् अच्छा भी सह पत्ने भी दाहरी। दाहया मास पार्थिव देहम राम से रेवत्या सह दग्ध्वा विभासो अर्जुनो द्वारका में पुरा निष्काम यज्जन पुरी वासुदेव से प्लातो दधिना अर्जुन सर्व वै गृह निर्गत कृष्णपत्न्या सदा मार्गे चवरा चौराभिरेश्च लुण्ठिता धनं सर्वं गृहीतं च जुनो भवेत् इन्द्रप्रस्थे समागत्य वज्रो राज कुतस्त अनिरुद्ध सुतो नाम्ना पार्थे नामित तेजसा व्यासाय कथितं दुःखं तेनोक्तोषो महारथ पुनर्यदा हरिश भाविता श्री महामते तदा तेज स्वात्युग्रम् भविष्यति पुनर्युगे तच्छ्रुत्वा वचनं पार्थ गत्वा नागपुरे अर्जुन दुःखितो धर्मराजानं वृत्तान्तम् सर्वम् अब्रवीत् देहत्यागम् हरे श्रुत्वा यादवानां क्षयं तथा गमनाय मतिं चक्रे राजाः हिमाचलं प्रति षट्त्रिंशत् वार्षिकम् सा राज्ये निर्जगामा वरं राजा द्रौपद्या भ्रातृभि सह षट्त्रिंशत्यैव वर्षाणि कृत्वा राजम् गजाभये गत्वा हिमाचवेषट् ते जहु प्राणान् तथा सुधा परीक्षेदपि राजि प्रजा सर्वसुधार्मिकः अपालयच्च राजेन्द्र षष्टिवर्षन्नितन्द्रितः बभूव मृगशासी मृगयाशील जगामर विद्धम् मृगं विचिन्वा नो मध्याह्ने भूपति स्वयम् तृषीतश्च प्रेषान्त क्षुदितश्चोत्तरासुतः राजा धर्मेण सन्तप्तो ददर्शय मुनिमन्त्रके ध्याने स्थितम् मुनिं राजा जलम् पप्रच्छ चातुरः नोवाच किञ्चिन् मौनर्थ शुकोपृपति तदा मुतं सर्पं तदादाय धनुष्कोट्या तु कलीनाविष्टचित्तस्तु कंठे तस्य निवेशयेत् आरोपिते तथा सर्पे नोवाच मनिषत्तमः न चालसमाधिस्थो राजाभि स्वगृहम् गतः तस्य पुत्रोऽ तेजस्वी गविदातो महातपः महाशक्तोऽथ शुश्रावय क्रीडमानो वनान्तिके मित्राणि आहुश्च तत्पुत्रम् पितुः कण्ठे तवाधुना लम्भितोऽस्ति मृतः सर्प केनापीतिमुनेश्वर तेषां तद्वचनम् कृत्वा च कोपाति शयम् तदा शशाप गृहीत्वा शुकरे जलम् पितुः कण्ठे दीये येन विनिक्षिप्तो मृतोरगः तक्षकः सप्तरात्रेण तं मुने शिष्योऽथ राजानम् समुपेत्य शापं निवेदयामास मुनिपुत्रेण चापितम् अभिमन्युः सुध श्रुत्वा शापम् दत्तम् द्विन वै अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच शक्तोऽहं द्विजरूपेण मम द्वेषाद संशयम् किं विजे मया मात्या उपायश्चिन्त्यतां ह्य मृत्यु किला निवार्यो सौ वदन्ति वेदवादिनः यत्नस्तथापि शास्त्रोक्त कर्तव्य सर्वथा बुधैः उपायवाधिना केचित् प्रवदन्ति मनीषिण पिञोपायेन सिद्ध्यन्ति कार्याणितरस्य च मणिमन्त्रौषधीनां विप्रभावः खलु दुर्विधः न भवेदिति चिन्तयस्तु मणि मद्भिः सुसाधितैः सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता दत्त्वाध मायुष्यस्तेन मुनीनातव्येन विश्वासः कर्तव्य सर्वथा बुधै प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवा किल दिवि कोऽपि पृथिव्यां वा दृश्यते दैवे मतिं समाधाय यतिष्ठेस्तु निरुध्यमय विरक्तस्तु यथे भूत्वा भिक्षार्थं याति सर्वथा गृहस्थानाम् गृहे आहुतो वाथवान्यथा यदृच्छयोपपन्नम् च क्षिप्तम् केनापि वा मुखे उद्यमेन विना चास्य उदरे संविशेत्कथम् प्रयत्नश्चोद्यमे कायो यदा सिद्धिम् नयाति चेत् तदादैवम् चेति चित्तमालम्बयेद्बुध मन्त्रिणो च कोमलि येन दत्त्वा तम् आयुषो जीविता मृता महाराज तन्नो ब्रूहि सवित्तरम् राजोवाच भ्रुवर्भार्यावरारोहा पुलोम्मा नाम सुन्दरी तस्या तु चवनो नाम जातो चवनस्य चशर्याते शर्याते सुकन्या नाम सुन्दरी तस्यां जन्म सुध श्री मां भार्या पता पी नाम दुरु दुरु नाम सुतो जात मते प्रिनाश्रुता रूना सुधुदा तथा साप तस् कच्चिश विश्रुद बभूव तपसा युक्तो युक्त धर्मत्मा सकस मनिया मेनका चारा क्रीडा चक्रे नदी तीरलोकेश गर्भम् वित्वा वसो प्राप्य निर्गता वरवर्णिनी स्थूलकेशाश्रमे गत्वा विसृज्य वराप्सरा कन्यकां च नदीतीरे तिषु लोकेषु सुन्दरीम् दृष्ट्वा नाथां तदा कन्यां चग्राह मृतत्तमः पुपोष स्थूलकेशस्तु नामना चक्रे प्रमध्वराम् सकाले यवनम् प्राप्ता रुरुदृष्ट्वा तदाम्बालाम् कामबाणार्दितो ह्यभूत् इति श्रीमद्देवी भगवते मा पुराणेष्टादशसहस्र्याम् संहितायाम् द्वितीयस्कन्धे रुरुचरित्रवर्णनम् नाम चमोऽध्याय श्रीजगदम्बिकायार्पणमस्तु